अथ प्रौढानुभूतिः प्रौढ प्रौढनिजानुभूतिगलित द्वैतेन्द्रजालो गुरुः गूढम् गूढमघौघदुष्टकुधियाम् स्पष्टम् सुधीशालिना स्वान्ते संगिहानुभूतमपि सत् शिष्यावबोधाय तत् सत्यम् संस्मृतवान् समस्तजगताम् नैजम् निजालोकनात् द्वैतम् मयि अखिलम् समुत्थितमिदम् मिथ्या मनः कल्पितम् तोयम् तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धम् नहि यद्येवं खलु दृश्यमेतदखिलम् नाहम् न वा तन्म प्रौढानन्दचिदेकसन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम् देहो नाहमचेतनो निशम् कुड्यादिवन्निश्चितो नाहम् प्राणमयोऽपि वादृतिधृतो वायुर्यथा निश्चितः सोऽहम् नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा बुद्धिर्बुद्धकुवृत्तिकेन कुहना नाज्ञानमन्धं तमः नाहङ्खादिरपि स्फुटम् मरुतल भ्राजत्पयः साम्यतः तेभ्यो नित्य त्यविलक्षणोऽखिलदृशिः सौरप्रकाशो यथा दृश्यैः सङ्गविवर्जितो गगनवत् सम्पूर्णरूपोऽस्म्यहम् वस्तु स्थित्यनुरोधतस्त्वहमिदम् ीच्यादिसिन्धुर्यथा निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहम् निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितराम् निष्प्राणवर्गोऽस्म्यहम् निर्मुक्ताशुभमानसोऽस्मि विगलत् विज्ञानकोशोऽस्म्यहम् निर्मायोऽस्मि निरन्तरोऽस्मि विपुल प्रौढप्रकाशोऽस्म्यहम् मत्तोऽन्यन्न हि किञ्चिदस्ति यदि भाष्यम् ततस्तन्मृषा गुञ्जावह्निवदेव सर्वकलनादिष्टान् भूतोऽस्म्यहम् सर्वस्यापि दृगस्म्यहम् समरसः शान्तोऽस्म्यपापोऽस्म्यहम् पूर्णोऽस्मि त्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् मयि वेद्ये स्वतो भासने का प्रतिपत्तिरेतदखिलम् भात्येव यत्सन्निदेः सौरालोकवशात्प्रतीतमखिलम् पश्यन्न तस्मिन् जनः सन्दिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहम् नित्यानन्दमयोऽस्मि निर्गतमहामोहान्धकारोऽस्म्यहम् विज्ञातम् परमार्थतत्त्वमखिलम् नैजम् निरस्ताशुभम् मुक्तप्राप्यमपास्तभेदकलना कैवल्यसञ्ज्ञोऽस्म्यहम् स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतम् मनो मात्रकम् मिथ्येत्येव विहाय सच्चिदमल स्वान्तैकरूपोऽस्म्यहम् यद्वा वेद्यमशेषमेतदनिशम् मद्रूपमेवेत्यपि ज्ञात्वा त्यक्तमरुण्महोदधिरिव प्रौढोगभीरोऽस्म्यहम् गन्तव्यम् किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेः कर्तव्यम् किमिहास्ति निष्क्रियतनोः क्षैकरूपस्य मे निर्द्वैतस्य न हेयमन्यदपि वा नो वाप्युपेयान्तरम् शान्तोद्यास्मि विमुक्ततोयविमलो मेघो प्राप्तमितः पुरा किमधुना लब्धं विचारादिना यस्मात् तत्सुखरूपमेव सततम् जाज्वल्यमानोऽस्म्यहम् किं वापेक्षमिहापि मय्यतितराम् मिथ्याविचारादिकम् द्वैताद्वैतविवर्जिते समरसे मौनम् परम् सम्मतम् श्रोतव्यम् च किमस्ति पूर्णसुदृशो मिथ्या परोक्षस्य मे मन्तव्यम् च न मेऽस्ति किञ्चिदपि वा निःसंशयज्योतिषः ध्यातृध्येयविभेदहानिव पुषो न ध्येयमस्त्येव मे सर्वात्मैकमहारसस्य सततम् नो वा समाधिर्मम आत्मानात्मविवेचनापि मम नो विद्वत्कृता यदस्ति गोचरवपुः को वा मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मका भ्रान्ता एव न पारगा दृढदियः तूष्णीम् शिलावत्स्थितः वस्तु कश्चित्पदार्थो न चापि एवम् कोऽपि विभामि सं शान्तानुपमानशीतलमः प्रौढः प्रकाशोऽस्म्यहम् योऽहम् पूर्वमितः प्रशान्तकलना शुद्धोऽस्मि यस्मान्मत्त इदम् समुत् स्थितमभूत् एतन्मया धार्यते मय्येव प्रलयम् प्रयाति निरधिष्ठानाय तस्मै सदा सत्यानन्दचिदात्मकाय विपुल प्र यमह्यम् नमः सतताचित् सुखरूपमस्ति सततम् नाहम् न च त्वम् मृषा नेदम् वापि जगत्प्रदृष्टमखिलम् जानीहि भो यद्यत्प्रोक् तम् करुणा वशात्त्वयि मया तत्सत्यमेतत्स्फुटम् श्रद्धस्वानघशुद्धबुद्धिरसि चेत् मात्रास्तु ते संशयः प्रौढानुभूतिस्त्वयम् दातौ व्यानतु मोहदुग्धबुधिये दुष्टान्तरङ्गाय च येयम् रम्यविदर्पितोत्तमशिरः प्राप्ता च कास्ति सा चेन्मर्कटहस्तदेशपतिता किम् राजते केतकी इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रौढानुभूतिः सम्पूर्णा हरि